श्रीहरये नमः अत अष्टदशोऽध्यायः मैत्रेय उवाच तदेव माकर्ण्य जले सभाषितं महामनास्ताद्विग् विगणय्य धुर्मतः हरेर्विदित्वा गदिमङ्गनारदात् रसादलं निर्विबिसे त्वरान्वितः दतर्ष तत्राभिजिदम् धरादरं नीयमान अवनिमग्रधं श्रयाम् मुष्णन्तमश्णा त्वरुषोरुण श्रिया जहासशाखो वनगोचरो मृगः आहैनमे यज्ञमहीं विमुञ्च नोरसौकसां विश्वश्रु न स्वस्ति यास्य न याममेक्षथत् सुरादमासाधितसूकराकृते त्वं नः त्वयि संस्थिते घतया सीष्ण सीष्णे अस्मद्भुजश्च्युदया ये च धुव्यम् बलिम् हरन्ति ऋषयो ये च देव स्वयम् सर्वे न भविष्यन्त्यमूलाः सधुद्यमानो मृदुरुक्तधोमरेर्दंष्ट्राग्रगाम् कामुपलक्ष्य भीताम् निकरात् अम्भुमध्या ग्राहातः सकरेणोर्यते भसरन्तम् सलिला अनुधृतो हिरण्यकेशो द्विरथं यदा जशः कराळदंष्ट्रोसनिस्वनो ब्रवीत् गतः क्रियां किं त्वसधाम् साघामुदस्तात् सलिलस्य गोचरे विन्यस्य अददात् स्वतस्त्वम् अभिष्टुतो विश्वसृजा प्रसुनैर् आपूर्यमाणो विभुतैः पश्यतो रेहे परानुशक्तं दपनीयोपकल्पं महागतं काञ्चनचित्रधंशं मर्माणि अभीक्ष्णं प्रदुधन्तं दुरुग्धैर् सत्यं प्रचण्डमन्यो ब्रहसंषे श्रीभगभानुवाचयोगोचरमृगा युष्मद्विधान् मृगये ग्रामसेमान्न मृत्युभासैः भ्रतिमुक्तस्य वीराभिकत्थनं तव गृह्णयन्त्यभद्रा एते वयं न्यास हरारसौकसाम् गते क्रियो गतया द्रावितास्ते तिष्ठामहेतापि कथञ्चिदाचौ स्तेयं क्वयामो बलिनोत्पाद्यवैरं त्वं भद्रतानां किल यूतभादिभो घटस्वनो स्वस्थय आस्वनूहः संस्थाप्य सास्मान् यस्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः शोधिक्षिप्तो भगवतां प्रलप्तश्चरुषा वृषम् आजहारोल्भणं क्रोधं कीट्यमानो हिराडिव सृजन्नमर्षितश्वासात् मन्युप्रचलितेन्द्रियः आसाद्यतरसाधैत्यो ददयाभ्य हनत् हरिम् भगवान्स्तु गतावेहं विसृष्टं रिपुणोरसे अवञ्चयत्तिरश्चिनो योगारूढ इवान्तकं पुनर्गतां स्वामाधाय रामयन्तम् अभीक्ष्णसः अभ्यधावत हरिक्रुद्ध सम्भ्रम्भा दच्छधं ततस्य गतया रातिं दक्षिणस्यां ब्रुवि प्रभुः आजग्े सतुधां सौम्य गतया गोवितो हनद एवं गदाभ्यां गुर्वीभ्यां हर्यशो हरिरेव जिगीक्षयासु संभ्रब्धावन्योन्यम् अभिजग्नधुः तयोस्पृतोस्तिग्मगधागदाघयो क्षताश्रवघ्राणविवृद्धमन्व्योः विचित्रमार्गां शरदोर्जिकीषया व्यभातिलायामिव सूक्ष्मिणो मृदः दैत्यस्य यज्ञाव्यवश्यमाया गृहीतवाराहतनोर्महात्मनः कौरव्यमह्यां द्विषतोर्विमर्दनं दिदृक्षराघा ऋषिभिर्व्रतस्वराट आसन्तशौण्ढीरमभेतसाध्वसं कृतप्रतीकारमहार्यविक्रमं विलक्ष्य दैत्यं भगवान् सहर्षणे ब्रह्मोवाच एष ते देवदेवानाम् अङ्ग्रीमूलम् उपेयुषां विभ्राणां सौरभेयीनां भूतानामप्यनाघसाम् आगस्कृतभयकृतदुष्कृतमद्राद्धवरोऽसुरः अन्वेषणप्रतिरथो लोकानटति कण्टकः मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् आक्रीटबालवद्देव यथासीविक्षमुत्थितं न यावदेशवर्धेत त्वां वेलां प्राप्य धारुणः स्वां देवमायाम् आस्थाय जह्य ग्युता घोरतमा सन्ध्या लोकच्चंभ्क प्रभो उपसर्पति सर्वात्मन सुराणां सुराण जयम आवहा अतुन भिजिन्ना गोमूर्तिको ह्य शिवायन स्व सुगृा दिष्ट्या त्वां विहितं मृत्युम् अयमासाधित स्वयं विक्रम्यैनं मृदेहत्वा लोकनादेहि सर्वणि इति श्रीभागवते महापुराणे तृतीयस्कन्ते हिरण्याक्षवधे अष्टदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द सद्गुरु महाराज की जय